नारदपुराणम् उत्तरार्धम् अध्यायम् सेवेण्टी नैन् अथ मधुरा माहात्म्यम् मोहिन्युवाच श्रुतं ह्यवन्त्या माहात्म्यं, माहात्म्यं वसोपापकरं नृणाम् अधुना श्रोतुमिच्छामि माहात्म्यं मधुरा वसुरुवाच श्रुणु मोहिनि वक्ष्यामि मधुरा या वैभवं यत्र भगवाञ्जाधपद्मभुवार्धितः आविर्भूय विभुस्तत्र सम्भ्रातो नन्दगोकुलं तत्र स्थित्वा किल क्रीडाश्चकारसह गोपकैः हत्वाचकं सप्रहितान् पूदनादीन्निशाचरान् विजहारसगोपीभिर्वने श्रुत्वा वनेषु यानि तीर्थानि सन्ति जमाधुरे तानि तेहं प्रवक्ष्यामि शृणु मोहिनि साम्प्रतम् आद्यं मधुवनं नाम स्नादो यत्र नरोत्तमः सन्तर्प्य देवर्षि पी धृन् विष्णुलोके महीयते अध कालाह्वयं देवि द्वितीयं वनमुत्तमं यत्र स्नादो नरो भक्त्वा कृतकृत्य प्रजायते कुमुदाख्यं तृतीयं तु यत्र स्नात्वा सुलोचने लभते वाञ्छितान् कामानिकामुत्र जगो मोददे तद काम्यवनं नाम चतुर्थं परिकीर्तितं बहुतीर्थान्वितं यत्र गत्वा स्याद्विष्णुलोकभाक् यत्तत्र विमलं कुण्डं सर्वतीर्थोत्तमोत्तमं तत्र स्नादो नरो भद्रे लभते वैष्णवं पदम् पञ्चमम् बहुलाघ्यम् तु वनम् पापविनाशनम् यत्र स्नातस्तु मनुज सर्वान् कामानवाप्नुयात् अस्ति भद्रवनम् नाम षष्ठम् स्नादोऽत्र मानवः कृष्णदेवप्रसादेन सर्वभद्राणि पश्यति वनं देवि सप्तमं यत्र मानवः स्नानमात्रेण लभते तद्विष्णो परमं पदम् महावनं चाष्टमं तु सदैव हरिवल्लभं तद्दृष्ट्वा मनुजो भक्त्या चक्रलोके महीयते लोकजङ्कं तु नवमं वनं यत्राप्लुतो नरः महाविष्णुप्रसादेन भुक्तिं मुक्तिं च विन्दति बिल्वारण्यां तु दशमं यत्र स्नाद सुमध्यमे शैवं यादि यत्समं यत्समं वा वैष्णवं वापि यादिलोकं निजेच्छया त्यकादशं तु भाण्डीरं योगिनामदिवल्लभं यत्र स्नातो नरो भक्त्या सर्वपापैर्विमुच्यते वृन्दावनं द्वादशं तु सर्वपापनिकृन्दनं यत्समं स यत्समं न धरा पृष्ठे यत्र मनुजो देवर्षि विदृदर्पणम् कृत्वा ऋणत्र यन्मुक्तो विष्णु लोगे महियदे विंशतिर्योजनानां तु माधुरं परिमण्डलं यत्र कुत्राप्लुतस्तत्र विष्णो भक्तिमवाप्नुयाद तन्मध्ये मधुरा नाम पुरी सर्वोत्तमोत्तमा यस्या दर्शनमात्रेण भक्तिं बिं दधि माधवे विश्रान्तिसंज्ञगं यत्र तीर्थरत्नं नरेश्वरी तत्र स्नादो नरो भक्त्या वैष्णवं लभते पदं विश्रान्तिर्निकटे दक्षे विमुक्तं तीर्थमुत्तमं तत्र स्नादो नरो भक् मुक्तिमाप्नोदि निश्चितं ततोऽपि दक्षिणे भागे रामतीर्थं जनेश्वरी यत्र स्नातो नरो ज्ञानबन्धान्मुक्तो भवेद्ध्रुवं संसारमोक्षणं तस्मात् दक्षिणे तीर्थमुत्तमं तत्र विष्णुलोके महीयदे प्रयावाक्यं ततो दक्षे तीर्थं त्रिदशदुर्लभं स्नातस्तत्र नरो देवि अग्निष्टोमफलं लभेद् तद कनकलं तीर्थ यत्र स्नादो नरः सति स्वर्गमसद्य देहान्ते दे मोददे नन्दनादिषु तद्दक्षेतिन्दुकं तीर्थं यस्मिन् स्नादो नरोत्तमः राजसूयफलं प्राप्य ततः पडुस्वामि पडुस्वामितीर्थं भास्करवल्लभं स्नात्वा यत्र रविं दृष्ट्वा भुक्तभोगो दिवं व्रजेद तस्माद् भद्रे ध्रुवतीर्थमनुत्तमं यत्र स्नातो ध्रुवं दृष्ट्वा लभते वैष्णवं पदं ध्रुवतीर्था तदो दक्षेतीर्थं सप्तर्षिते विधं तत्र मुनिं दृष्ट्वा ऋषिलोके प्रमोददे दक्षिणे ऋषितीर्थस्य मोक्षतीर्थमनुत्तमं यत्र, यत्र वै स्नानमात्रेण मुच्यते सर्वपापदः तद्दक्षे बोधिनीतीर्थं स्नात्वा यत्र दुमानवः दत्त्वा पिण्डं पितृभ्यश्च नयेत्तां स्त्रीदशालयं तद्दक्षे कोडितीर्थे वै यत्र स्नानेन मानवः सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् विश्रान्तेरुत्तरे भागे तीर्थमस्त्यसि कुण्डकम् यत्र स्नादो नरो देवि वैष्णवं लभते पदम् असि कुण्डस्य सौम्ये दु नवतीर्थं सुलोचने यत्र वैस्नानदो मर्त्यः स्वर्ग लोके महीयते तीर्थं संयमनं नाम तद उत्तरदस्थितं तत्र स्नानेन यमलोकं न पश्यति तदुत्तरे परं तीर्थं धारायतनसंज्ञिकं तत्र स्नात्वा तु तदुत्तरेणागतीर्थं यत्र स्नानेन मोहिनि सर्पेभ्यो ह्यभयं लब्ध्वा स्वर्गे लोके महीयते तदुत्तरं ब्रह्मलोकं कण्डाभरणकाह्वयं स्नात् पापापकं तीर्थं ब्रह्मलोकगतिप्रदम् अस्मात् सौम्ये परं तीर्थं सोमाख्यं यत्र सम्प्लुतः सोमलोकमवाप्नोति विपापो मनुजोत्तमः स्नात्वा प्राची सरस्वत्यां तस्मादुत्तरदशुभे यत्र वैष्णानमात्रेण नरो वागीश्वरो भवेत् तदुत्तरे चक्रतीर्थं यत्र स्नातस्तु मानवः जि शत्रुगण स्वर्गे मोदते युग्वेधम तस्माुस् ये वाजिमेधफल लभेद गोकर्णाख्यम शिव त्रपूज्य विधिवर सर्वान्माप्यां शिवलोके महीयते विघ्नराजा क्वयं तीर्थ तस्मादुत्तरदस्थितं यत्र स्नात्वा ह्यविघ्नेन सर्वकर्मफलं लभेत् तदुत्तरे ह्यनन्ताख्यं तीर्थं तत्राप्लुतो नरः चतुर्विंशतितीर्थानां माधुराणां फलं लभेद् मधुराया महाभागे साक्षाद्देवो हरिस्थितः चतुर्व्यूहस्वरूपेण माधुराणां विमुक्तिदः एका वराहमूर्तिश्च परानारायणा त्वया वामनाख्या तृतीया च चतुर्धी हलधारिणी चदुर्वग्रहधरम् दृष्ट्वा समभ्यर्च्य विधानतः नरो मुक्तिमोदि न विचारण रंगेशम चापी भूदेशम महाविद्या चा भैरव दृष्टवा संपूज्य विधिवल चुसा मुद्री के कूपे कूबायाच गणेशु तथाख्य गंगाया स्नात्वा मुच्येदपादकाद सर्वस्य माधुराख्यस्य मण्डलस्य शुभनने आधिपत्ये स्थितो देवकेशवक्लेशनाशनः अदृष्ट्वा केशवं भद्रे माधुरे पुण्यमण्डले जनुर्निरर्थकं तस्य संसरे भवसागरे अन्यान्यसङ्ख्यतीर्थानि तत्र सन्धिशुभानने स्नात्वा तेष्वपि दत्त्वा च किञ्चित्तत्र स्थिताय मधुरायाश्च महात्म्यं श्रावयद्यशृणोति च सोऽपि भक्तिं हरौ लब्ध्वा सर्वान् बृहन्दीयपुराणे बृहदुवाख्या वसुमोहिनीसंवा मधुरा महात्म्य वर्णन नामकोनाशीतितमोध्या मधुरा महात्म्यं ओम।